क्तप्रभवितुम् न चेदेवम् देवो न खलु कुशलस्पन्दितुमपि अतस्त्वामाराध्या कथमकृतपुण्यप्रभवति तनीयांस पां सुं तव चरणपङ्केरुहभवम् विरिञ्चिस्सञ्चिन्वन् विरचयति लोकानविकलम् सहस्रेण शिरसा हरसंक्षुद्यैनम् भजति भसितोद्धोलनविधिम् अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी जडानां चैतन्यस्तबकमकरन्तश्रुतिझरी दरिद्राणां चिन्तामणि गुणनिका जन्म निमग्नानां दं श्रररिपुवराहस्य भवति पाणिभ्यामभयवरदोदैवतगणः त्वमेका नैवासि प्रकटितवराभीत्यभिनय भयात्रातुम् दातुम् फलमपि च वाञ्छा समधिकम् शरण्ये लोकाना चरणावेव निपुणौ हरिस्त्वामाराध्यप्रणतजनसौभाग्यजननी पुराणा भूत्वा पुररिपुमपेक्षोभमनयत् स्मरोऽपि मुनीनामाप्यन्तः प्रभवति मोहय महता धनुपुष्पं मौर्वे मधुकरमयी पञ्चविशिखाः वसन्तः सामन्तो मलयमरुदा योधनरतः तथाप्येकः सर्वम् कामपि कृपा अपाङ्गे लब्ध्वा जगदितमनङ्गो विजयते वर्णत् काञ्चीदाम करिकलभकुम्भस्तनत परीक्षीणा मध्ये परिणतशरश्चन्द्रवदना धनुर्बाणान् पाशम् श्रृणिमपि थिराहोपुरुषि सुधा मध्ये सुरविट पिवाटी पर मने द्वीपेनी पवनवती चिंता मणिगृहे शिवाकरे मंचे परमशिवपर्यङ्कनिलया भजन्ति त्वा धन्याः कतिचन चिदानन्दलहरी महीमूलाधारे कमपि स्थितम् स्वाधिष्ठाने ृदि मरुतमाकाशमुपरि मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपतम् सहस्र रे पद्मे सहरहसि पत्या विहरसि सुधाधारसारेश्चरणयुगलान्तर्विगितैः प्रपञ्चम् सिञ्चन्ति पुनरपि रसाम्नायमः सः अवाप्यस्व भूमिम् भुजगनिभमध्युष्टमलयम् त्वमात्मानं कृत्वा स्वपि शिकुलकुण्डे कुहरिणी भिरपि मूल प्रकृतिभिः चतुश्शत्वारिंशद्वसुदल कलाश्रत्रवलय त्रिरेखाभिः सार्धं तव चरणकोणा परिणताः त्वदीयम् सौन्दर्य तुहि न गिरिकन्ये तुलयितुम् कवीन्द्रा कल्पन्ते कथमपि विरिञ्चिप्रभृतयः यदा लोगौत्सु योज्य पदवी नरं वर्षीयां सं नयन विरसं नर्म सुचडम् तवापाङ्गालोके पतितमनुधावन्ति शतशः गलत्वेणीबन्ध कुचकलश चया हठा दृट्यो गलितुकोलायत क्षितष्पंचाशाशे षष्टिश्चतुरधिकपञ्चाशदनिले दिवे द्विषत्त्रिंशन्मनसि चतुष्षष्टिरिति मयूखस्तेषामप्युपरि तव पदाम्बुजयुगम् शर जोत्शुद शशियुत जटाजूटमकुटा वर्रा सत्रणस्फिकुटि पुस्तक कराम, सकृ कथमिव सन्नी र्पणितयः कवीन्द्राणाञ्चेत् कमलवनबालातपरुचिम् भजन्ते ये सन्तः कतिचिदरुणामेव भवति विरिञ्चि शिन्यादिस्ता सह संचिन्तयति सचिंत यहा रिण शालीनयनाः सहोर्वश्यावश्य कति कति न गेर्वाणगणिकाः तदधो िते मन्मथ कला ससद्य संक्षोभं नयति वनिता इत्यति लघु त्रिलोकीमप्याशुभ्रमयति रवे रशिला मूर्ति व सर्पाण दर्पम शमयती शकुंताधिवर पृष्ट दृष्ट सुखयती सुधाधारश्या शिवैश्वानरमयी निषण्णां षण्णामप्युपरि कमलानां तव परमाह्लादलहरी भवानि भवानित्वं दासे मयि वितरदृष्टिम् सकरुणाति स्तोतुम् वाञ्छन् कथयति भवानित्वमिति यः तदैव त्वम् स्मै दिशसि निजसायुज्यपदवी मुकुन्द ब्रह्मेन्द्रस्फुटमकुटनीराजितपद त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् यदेतत्वद्रूपं सकलमरुणाभं त्र नयनम् कूजाभ्यामानं जगत्सूते धाता हरिरवति रुद्रक्षपयते तिरस्कुर्वेतत् स्वमपि वपुरीशस्तिरयति सदा चलित ल योलो त्रिगुण जता तव शिव भवजा पूजा तव चरण श्वन् मुकुलितकरो तं समकुट विरिञ्चि पञ्चत्वं व्रजति हरिराप्नोति विरतिम् विनाशं कीनाशो भजति धन दोयाति निधनम् वितन्त्री दश महा संहारेस्हरती विहरति थत्पतिर जपो जल्प सकलमपि मुद्रा विरचना गतिप्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः प्रणामः संवेश सुधामप्यास्वाद्य प्रतिभय जरामृत्युहरिणी विपद्यन्ते विश्वे विधिशतमखाद्यादिविशदः करालं यक्ष्वेलं कमलितमर्थकालकलनम् जननिताटङ्कमहिमा किरीटं वैरिञ्चम् परिहरपुरकैटभृदः कठोरे कोटीरे स्खलसि जहिजम्भारि मकुटम् प्रसभमुपयातस्य भवनम् भवस्याभ्युत्थाने तव परिजनोतिर्विजयत् स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो निषेव्ये नि सदा भावयति यः किमाश्चर्यम् तस्य त्रिनयन समृद्धिम् तृणयतो महासंवर्ताग्निर्विरचयदिने राजनविधिम् चतुष्षष्ट्या तन्त्रे सकलमतिसन्धाय भुवनम् स्थितस्तत्तत्सिद्धिप्रसव परतन्त्रैः स्वतन्त्रं ते तन्त्रं क्षितितलमवातितरदिदम् शिवशक्तिकामक्षितिरथर विशीतकिरणः स्मरोऽहंशश्चक्रस्तदनु च मी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता भजन्ते वरुणास्ते तव जननि नामावयवता स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनोह निधायै भोग हजं चिंता मणिगुण निब्धाक्ष वलया शिवा नौ जुहवतुरिघतधारातिश शरीरं त्वं शम्भो शशिमिहिरवक्षोरुहयुगम् तवात्मानं मन्ये भगवति नवात्मानमनघम् अतः शेष सम्बन्धो वां मनस्त्वं योमत्वं मत्वं मरुदसि त्वमापस्त्वं भूमिस्त्वयि परिणतायां न परम् त्वमेव स्वात्मानं परिणमयितुं विश्ववपुष चिदानन्दाकारम् शिवयुवतिभावेन बिभृशे तवाज्ञाचक्रस्थं तपनशिकोटिद्युतिधरम् शंभुम वंदे पिमितापाश्व परम आराध्यन्क् रिशुचीनाष निरालोके लोके निवसतिलोक भुवने विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकम् शिवं सेवे देवीमपि शिवसमानव्यवसिता ययोकान्त्यायत्या शशिकिरणसारूप्य शरणे हे विलसति च कोरेव जगति भजेहं सद्वन्द्वं किमपि यदापादष्टादश गुणितविद्या परिणतिः यदा दर्ते दोषद्गुणमखिलमभ्यपयैव तव स्वाधिष्ठानेहुतवहमधिष्ठाय निरतम् संननी महती सदा लोके लोका महति क्रोधकलि दया द्रयाधृष्टि शिशि मुपचार रचयती टित्वन्तं शक्त्या तिमिरपरिपन्थि स्फुरणया स्फुरन्नारत्राभरणपरिणध्येन्द्रधनुषम् तव श्यामं मेघं कमपि मणिपूरैकशरणम् षेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् तवा धारे मूले सहसमययालास्य परया वात्मानम् अन्येन वरसमहाताण्डवनटम् उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया स नाथाभ्याम् जन्ये ैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितम् किरीटं तेहैमं हिमगिरिसुते कीर्तयति यः सनिडे धनुशौनासीरं किमिति न निब्रातिधिषण् धुनोतुद्वान्तं न स्तुलितगलितेन्दीवरवनम् घनस्निग्धश्लक्ष्णं च कुरनि कुटुम्बं यदीयम् सौरभ्यम् सहजमुपलब्धुम् सुमनस्वा वसन्त्यस्मिन्मन्येवलमथनवाटी विटपि न तनो तुक्षेमं नस्तव वदनसौन्दर्यलहरी रिवाह स्रोतः सरणिरिवसीमन्तसरणिः वहन्ती सिन्दूरम् प्रबलकमरि भारति लै स्वाभाव्यादलिकलभस श्रीभिरलकैः परितं ते वक्त्रं परिहसति पङ्केरुहरुचिम् दरस्मे रे यस्मिन् दशनरुचि मरदः न चक्षुर्मधुलिहः ललाटं लावण्यद्युतिविमलमाभाति तव यत् द्वितीयं चन्द्रशकलम् पर सन्यादुभि संभूय च मिथ सुधाले प्यूति पिणमतिरा मक भ्रुवो भुग्ने किंचि भुवन भय भंगम व्यसनि नेत्राभ्याम् मधुकररुचिभ्याम् धृतगुणम् धनुर्मन्ये सव्येतरकरगृहीतं प्रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ते संव्यं तव नयनमर्कात्मकतया त्रिया वामं ते सृजति रजनीनाय कथया तृतीया श निशयोरन्तरचरी विशाल कल्याणी स्फुटरुचिरयोध्या अवन्ती दृष्टि व्यवहरणयोग्या विजयते कवीनां सन्दर्भस्तबकमकरन्दैकरसिकम् कटाक्षं याक्षेपभ्रमरकलभं मुञ्चन्तौ दृष्ट्वा तवनवरसा स्वागतरळौ असूयासं सर्गादलिकनयनम् किञ्चिदरुणम् शिवे शृङ्गारार्द्रा तदितरजने कुत्सन परा सरोष गङ्गायाम् गिरिशचरिते विस्मयवती हराहिभ्यो भीत सरसि गते करुणा गुणाभ्य गुत पक्ष्मा दधती पुरा हेतु प्रशमरस विद्रवण इेत्री गोत्रधरपति धरपति तम सकलिके स्मरशरविलासं कलयतः विभक्तत्रैवर्ण्यं यतिकरितलीलाञ्जनतया विभातित्वन्येत्र <anyans��> तयमिदमीशालदयिते पुनः स्रष्टुम् देवा द्रुहिण हरि रुद्रानुपरता रजस त्वम् बिभ्रत्तम इति त्रयमिव पवित्रीकर्तुम् नः पशुपतिपराधीन हृदये दयामि ैर्नेत्रैररुणधवळश्यामरुचिभिः नदशोणो गङ्गातपनतनयेति ध्रुवममुं त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ेषोन्मेषाभ्याम् प्रलयमुदयम् याति जगति तवेत्याहुः सन्तो धरणिधरराजन्यतनये त्वदुन्मेषातं जगदिदमशेषम् प्रलयतः शास्तमदृशः तु वा पर्णे कर्णे जपनयन पैशृण्य चकिता <laughs> निलीयन्ते त्वये नियतमनिमेषाश्च श्रीर्वटं कुवलयम् जहाति प्रत्युषे निशि च विघटेय प्रविशति दृशाद्राधीयस्यादरदलितनीलोत्पलरु च दीयां सन्दीनम् स्नपय कृपया मामपि शिवे अनेनायुं धन्यो भवति न च देहानिर्यता मनेवाहर्म्ये वा, वा समकरनि पातो हि मकरः नराळं ते ये न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् तिरश्चे नो यत्र श्रवणपथमुल्लङ्घ्य विलसन् अवागव्यासङ्गो दिशति शरसन्धानधिषणा गण्डाभोगप्रतिफलितताटङ्कयुगलम् चतुश्चक्रं मन्ये महावि थपतये सज्जितवते सरस्वत्या सूक्तिरमृतलहरी कौशलहरीः पिबन्त्या सर्वाणि श्रवणचुळुकाभ्याम विरलम् चमत्कार श्लाघाचलित शिरस कुण्डलगणो झणत्कारैस्तारै प्रथिवचनमाचष्टयिव वहत्यन्तर्मुक्ताशिशिरधरीश्वासगितम् समृद्ध्याय तासाम् सुदति दन्तच्छदरुचेः प्रवक्ष्ये सदृश्यम् जनयतु फलम् विद्रुमलत न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितम् तुलामध्यारो मिव विलजेतकलया स्मितज्योत्स्नाजालं तव वदन पिबता चकोराणामासीदतिरसतया चञ्जुजडिमा तस्ते शीतां शोरमृतलहरी मां लरुचयः पिब ते स्वच्छन्दम् निशि निशिभृशं जपुष्पाया तव जन जिहती सदग्रासनाया स्टिकृषदेमयी सरस्वत मूर्ति परिणमती माणिक्य वुष जित्वा दैत्यानप्रहृतशिरस्त्रैः कवचिभिः निवृत्तैश्चण्डां शत्रुपुरहर निर्मल्यविमुखैः विशाखेन्द्रोपेन्द्रैः शशि विशद कर्पूरशकल न्ते मातस्तव वदन ताम्बोलकबलाः विपञ्च्या गायन्ति विविधमपदानं पशुपतेः त्वयारब्धे वक्तुम् चलित शिरसा साधु तदीयैर्माधुर्यैरबलपिततन्त्री कलरवा निजामेणां वाणी निचुळयति चोळेन निभृतम् कराग्रेण स्पृष्टं तु हि न गिरिणावत्सलतया गिरीशेनोदस्तम् मुहुरधरपानाकुलतया करग्राह्यं कर शम्भोर्मुखमुकुरवृन्तं गिरिसुते कथंकारं ब्रूमस्तव चुबुकमोपं यरहितम् श्लेषान्नित्यम् पुरदमयितु कण्टकवती तव ग्रीवा प्रतिगमक गमकगीतैकनिपुणे विवाहव्यानद्धप्रगुणगुणसङ्ख्या प्रतिभुवः विराजन्तेना लतानां चतसृणा चतुर्भ्यः सौन्दर्यं सरसिजभवस्तौति वदनैः नखेभ्यः सन्त्रस्य प्रथममथनादधकरिपोः चतुर्णां स्तापणिया कथमुमे कयाचिद्वासाम्यं भजतु कलया हन्तकमलम् यदि क्रीडल् लक्ष्मी चरणतललाक्षारसचरणम् समं दे हरतु सततं प्रश्नुतमुखम् यदा लोक्या शङ्काकुलितहृदयोः स जनकः स्वकुम्भौहेरम्ब परिमृशति हस्तेन झटिति वक्षोजावमृतरसमा ौ न सन्देहस्पन्दो नगपतिपताके मनसि नः पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ कुमारावद्यापि द्विरगवदन क्रौञ्जदळन मला लतिका कुच भोगा बिम्बाधररुचिभिरं तस्य मलिता प्रताप व्यामेश्राम् पुरगमयितु कीर्तिमिव ते तव धरणि धर दयावत्या दत्तं द्रविडशिशुरस्वाद्यतवयत् कवीनां प्रौढानामजनिकमनीयः कवयितः कृतसङ्गो मनसि जग समुत्तस्थमुतस्मादचलत नये धूमलतिका जनस्ताम् जानीते तव जननि रोमा वळिरिति यद्भाति सुधिया विमर्दादन्योन्यम् कुचकलशयोरन्तरगतम् तलोभूतं व्योमप्रविश दिवनाभिम् कुहरिणि सुमश रोहुत भुज रीलागार कि वागिरीसुते बिलद्द्वारे गिरीश नयनाजर्गक्षी टभरेण क्लमजुषो न मन्मूर्तेर्नारीतिलकशनकैस्त्रुट्यत इव शिरं ते मध्यस्य कुशलं शैलतनये कूजौ सद्य स्विद्यतटघटित कूर्पासभिधुरौ कृषन्तौ दोर्मोले कनककलशाभौ कलयता तवत्रा तुम्भम् पणि लवले वल्लेभिम नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे हतस्ते विस्तीर्णो गुरुरयमशेष वसुमती शृङ्गान् कनकदली काण्डपटले गुहाभ्याम् ऊरुभ्याम् उभयमपि निर्जित्य भवति पत्यु प्रणति कठिनाभ्याम् कुम्भद्वयमसि पराजेतुं रुद्रम् द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घेते विषमविशिखो बाढमकृत यदग्रे दृ शरफलापादयु गण्डीग्रच्छद्मान सुरमकुटशणैकनिशितः श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतो मा शिरसिदयया देहि चरणौ ययोः पद्यं पातर् पशुपति जटाजोटतटिनी ययोर्लाक्षालक्ष्मीररुणहरिचोडमणिरुचिः नमो वाकं ब्रूमो नयनरमणीयाय पदयोः तवास्मै द्वन्द्वाय स्फुटरुचिरसा लक्तकवते असो यत्यत्यन्तं यदभिहन केलितरवे मृषा कृत्वा गोत्रस्खलनमथ ललाटे भर्तारं चरणकमले ताडयतिते ते चिरादन्तः निशानरिपुनािमानिहन्तव्यं हिमगिरिनिवासैकचतुरौ निशायाम् निद्राणाम् निशिच रमभागे च विशदौ वरं लक्ष्मीपात्रम् श्रियमतिसृजन्तौ समयिना सरोजम् त्वत्पादौ जननि जयतश्चित्रमिह किम् पदं ते कीर्तिनाम् प्रपदमपदम् देवि कथम नीत सद्कमठी कर्परकुला कथम बाबाभ्यापयन कालेदश दन मनस नखर्नाकस्त्रीण ना करकमल सकोच शशि तरूण दिव्यास वे चंडी चरण फलाल स्वस्थे किसल कराग्रेण श्रियमनिशमह्नाय ददतुम् ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी अमन्दं सौन्दर्यप्रकरमकरन्दं विकिरति तवास्मिन् तब कसुम गे चे निमजन्म जीवकरण चरणता अर्थस्तेषाम् शिक्षाम् सुभगमणिमञ्जीररणितः शा चक्षाणम् चरणकमलम् चारु चरित स्वच्छाया घटितकपट प्रच्छदपटः त्वदीयानां भासाम् प्रतिफलनरागारुणतया शरीरे शृङ्गारो रस एव दृशां दोग्धिकुतुकम् कृति सरलामन्दहसिते शिरीशाभाचित्ते दृशदुपलशोभाकुचतटे भ्रशं तन्वि मध्ये पृथुरुरसिजारोह विषये जगत्रातुं शम् चिदरुणा कलङ्कस्तूरीरजनिकरबिम्बं जलमयम् कलाभिकर्पूरैर्मरकतकरण्डं निबिडितम् अतस्तद्भोगेन प्रतिदिनमिदम् स्वच्चो सपरियाम तरल नाम सुल तथा हेते नीत शख मुखा सिद्धिमुला महादेवं धन महादेव हिवसती सती नाम चरमे कुर्जाभ्या संगकोरप्य सुलभ है द्रितनया तुरेया कापि त्वम् दुरधिगमनिस्येव महिमा महामाया विश्वं भ्रमयसि पर ब्रह्म पिबेयं विद्यार्थी तव चरणनिर्णे जनजलम् प्रकृत्या मूकानामपि च कविता पुष चिरम् जीवन्येव क्षपितपशुपाशंयति करः परानन्दाभिख्यम् रसयति रसं स्वकीयैरम्भोभिः सलिलनिधि संहित्यकरणम् त्वदीयाभिर्वाभिस्तव जननि वाचां स्तुतिर्यम्